स्वभामसदृशसौन्दर्यान्विताय नमः ॐ सन्नुथामलनाभे नमः ॐ सन्निवासाय नमः ॐ सन्निरूपकाय नमः ॐ सन्मार्गसूचकाय नमः ॐ स्वनन्दमूलाय नमः स्वानन्धामृतनिर्भराय नमः ॐ स्वानुभूत्येकमानाय नमः ॐ सन्मार्गसूचकार्थविधे नमः ॐ सन्मीक्षेणाय नमः ॐ सन्मित्राय नमः ॐ सन्न्यासिने नमः ॐ सन्न्यासकृते नमः ॐ स्वानुभावाय नमः ॐ स्थानधाय नमः ॐ सानन्धाङ्गुराय नमः ॐ सानन्दमुनिविकज्ञादहाराख्याभूतये नमः ॐ सुनयनाय नमः ॐ सुनाशाय नमः ॐ स्निच्छलाय नमः सुनिष्पन्नाय नमः ॐ सुनीतये नमः ॐ सुधास्त्रविनाशनाय नमः ॐ सुनीताय नमः ॐ सुनृताय नमः ॐ सेनान्ये नमः ॐ सेनापतये नमः ॐ सेनानीनांकये नमः ॐ स्वेनतेजसादि थे नमः ॐ सेनाकल्य नमः ॐ सेनाभ्यो नमः ॐ सेनानिभ्यो नमः ॐ स्तैनरक्षकाय नमः ॐ स्तेपतये नमः ॐ स्त्रैं नमः ॐ स्त्रैं नमः ॐ सप्तधाचाराय नमः ॐ सप्तलोकधृते नमः ॐ सप्तजिह्वाय नमः ॐ सप्तलोकाय नमः सप्तवाहनाय नमः ॐ सप्तकोटिमहामन्त्रयन्त्रितावयवाय नमः ॐ सप्तकोटिमहामन्त्रपूजिताय नमः ॐ सप्तकोटिमहामन्त्ररूपाय नमः ॐ सप्तविंशतियाघकृते नमः ॐ सप्तकोटिमहामन्त्रमन्त्रितावद्युतये नमः ॐ सप्तर्षीणां नमः ॐ सप्तर्षि भ्यो नमः ॐ सप्तर्षि वन्धिताय नमः ॐ सप्तर्षिगणवन्धिताय नमः ॐ सप्तपादालचरणाय नमः ॐ सप्तद्वीपोरुमण्डिताय नमः ॐ सप्तस्वर्लोकमुकटाय नमः ॐ सप्त सप्तिवरप्रदाय नमः ॐ सप्तच्छन्दोनिधये नमः ॐ सप्तहोत्राय नमः ॐ सप्तस्वराश्रयाय नमः ॐ सप्त नमः ॐ सप्तच्छन्धामोधमधाय नमः ॐ सप्तच्छघ्नोधमव्य ङ्घोमयप्रभवे नमः ॐ सप्तविंशतितारेशाय नमः ॐ सप्तास्वाय नमः ॐ सप्तैधसे नमः ॐ सप्ताङ्गराज्यसुखदाय नमः ॐ शाब्धिकेलिकासाराय नमः ॐ सप्रेम हृदयपरिपाकाय नमः ॐ सप्रेम भ्रमराभिरामाय नमः ॐ सम्पूर्णकामाय नमः ॐ सम्पत्प्रदाय नमः ॐ सम्प्रमधर्णाय नमः स्तपतये नमः ॐ स्वपथे नमः ॐ स्वभदभूषिकृतसर्वमस्तकचयाय नमः ॐ स्वपद्वचो नमः ॐ स्वभाववर्जिताय नमः ॐ स्वापवर्जिताय नमः ॐ स्वापनाय नमः ॐ स्वप्रकाश नमः ॐ स्वप्रकाशाय नमः ॐ स्वप्रकाशस्वरूपाय नमः ॐ स्वप्रकाश स्वरूपिणे नमः ॐ स्वप्नगाय नमः ॐ स्वप्नाय नमः ॐ साम्प्रदायकाय नमः ॐ सुप्रदीपाय नमः ॐ सुप्रसन्नाय नमः ॐ सुप्रकाशस्वरूपाय नमः ॐ सुप्रभोदागमनाभये नमः ॐ सुप्रभाय नमः ॐ सुप्रसादाय नमः ॐ सुप्रतीकाय नमः ॐ सुप्रतापनाय नमः ॐ सुप्रजाताय नमः ॐ सुपात्राय नमः ॐ सुपोषाय नमः ॐ सुपाशाय नमः ॐ सुपर्णाय नमः ॐ सुपर्णवाहनप्रियाय नमः ॐ सुपुष्पाय नमः ॐ सुप्रीतानततेजसे नमः ॐ सुप्रीताय नमः ॐ सुफलोदयाय नमः ॐ साम्भाय नमः ॐ सुबलाय नमः ॐ सुबला लाठ्याय नमः ॐ सुबुद्धये नमः ॐ सुबलभाणासुरवरप्रधाय नमः ॐ सुबीजाय नमः ॐ सुबन्धविमोचनाय नमः ॐ सुभान्तवाय नमः ॐ सुब्रह्मण्याय नमः सभापतये नमः ॐ सभानाथाय नमः ॐ सभावनाय नमः ॐ सभाभ्यो नमः ॐ सभापदिभ्यो नमः ॐ शभाव्याय नमः ॐ शभनाय नमः ॐ शभ्रमाय नमः ॐ शभूतये नमः ॐ शभवाय नमः संभावाय नमः ॐ स्वभावरुद्राय नमः ॐ स्वभावनिर्मलाभोगाय नमः ॐ द्वभक्तजनन्तापपापद्मसत्पराय नमः ॐ स्वभक्ता किलदायकाय नमः ॐ स्वभावानलदीप्ताय नमः ॐ स्वभावे धारधीराय नमः ॐ स्वभावसिाय नमः ॐ स्वभावभद्राय नमः ॐ स्वभाववार्ताय नमः ॐ स्वभावोत्कृष्टसद्भावाय नमः ॐ स्वभावपूज्याय नमः ॐ स्वभरणप्रियाय नमः ॐ शुभोगिने नमः ॐ शुभगा भक्तिवैराग्यप्रसन्नाय नमः ॐ शुभद्रवते नमः ॐ शुभक्तिधाय नमः ॐ सुभुजाय नमः ॐ स्वभुजे नमः ॐ शुभगासंस्कृतभाधाय नमः भक्तिधेनुपालकाय नमः ॐ शुभगाय नमः ॐ शुभासे नमः ॐ शोभ्याय नमः ॐ सौभाग्यरसजीवातु सरासारविवेगत्तसे नमः ॐ सौभाग्यवर्धनाय नमः ॐ सौभगाय नमः ॐ सौभाग्यनिदये नमः ॐ समस्त नमः ॐ समस्तसुमनपूज्याय समस्त जगदां नेत्रे नमः ॐ समस्तदेवानां नमः ॐ समस्तदेवस्वराय नमः ॐ समस्तसिद्धये नमः ॐ समस्तगीर्वाणलोकशरण्याय नमः ॐ समस्तलोकविग्रहाय नमः ॐ समस्तगुणसागराय नमः ॐ समस्तदुःखविध्वंसिने नमः ॐ समस्तानन्दकारणाय नमः समस्तामरलोकपूजिताय नमः ॐ समस्तसुरसेविताय नमः ॐ समस्तर्षये नमः ॐ समस्तैकबन्धवे नमः ॐ समस्तजगदाम्नाथाय नमः ॐ समस्तसाक्षिणे नमः ॐ समस्तकल्याणनिधानाय नमः ॐ समष्टिविद्यानगरीनायकाय नमः ॐ समस्वरूपाय नमः ॐ समस्ताय नमः ॐ समग्राय नमः ॐ समयाय नमः ॐ समद्दुष्टये नमः ॐ समरमर्धनाय नमः ॐ समञ्जसाय नमः ॐ समाराय नमः ॐ समर्चिताय नमः ॐ समदसाज्ञाय नमः ॐ समग्रतेजसे नमः ॐ समवर्तिने नमः ॐ समस्तोत्राय नमः ॐ समया समयाचाराय नमः ॐ समासदद्धिताकाराय नमः ॐ समानाय नमः ॐ समाय नमः ॐ समानाधिगवर्जिताय नमः ॐ समानाभिगम्याय नमः ॐ समाधिकृते नमः ॐ समाभनयाय नमः ॐ समायुक्ताय नमः ॐ सम्राडाकृतिधवलपश्चिमवधनाय नमः namaham ्राजे नमः ॐ समिद्धाय नमः ॐ सिद्धोमप्रियाय नमः ॐ संय नमः ॐ संधिष्ठिताय नमः ॐ समिद्दिञ्जयाय नमः ॐ समीराहारात्मप्रणवजनहृत्पद्मनिलयाय नमः ॐ समीराहारेन्द्राङ्गताय नमः ॐ समीहनाय नमः समुद्राय नमः ॐ समुद्रोद्भूतकरळकन्धराय नमः ॐ समुद्रवनसाराय नमः ॐ समुद्रव्योममध्यस्थाय नमः ॐ समुद्रधनयाराध्याय नमः ॐ समूर्तिकेलिसम्प्रीताय नमः ॐ समृद्धिमते नमः ॐ स्मृद्धश्रियै नमः ॐ स्मृत्युकप्रपञ्चाद्य सामगाय नमः ॐ सामवेदाय नमः ॐ सा गयकाय ॐ सा सुज्येष्ठसाम्ने ॐ सामवेदप्रियाय नमः ॐ साम प्रियाय ॐ सा गेयाय ॐ साघप्रियाय नमः ॐ सामवेत्रे नमः ॐ सामलिङ्गाय नमः ॐ सामक्षणाय नमः ॐ सामध्याय नमः ॐ साममयाय नमः ॐ सामगानविनोदनाय नमः ॐ सामगानप्रियाय नमः ॐ सामगानरथाय नमः ॐ साम नमः ॐ साम् नमः ॐ सामगानसमाराध्याय नमः मवेद्याय नमः ॐ सामान्याय नमः ॐ सामस्याय नमः ॐ सामान्यदेवाय नमः ॐ सावग्याय नमः ॐ स्वामि नमः ॐ स्वामि नमः ॐ स्वामिने नमः ॐ सुमङ्गलसुमङ्गलाय नमः ॐ सुमन्धाय नमः ॐ सुमेखलाय ॐ सुमं नमः ॐ सुमहास्वनाय नमः ॐ सुमध्यमाय नमः ॐ सुमनसे नमः ॐ सुमनोलं कृतशिरसे नमः ॐ सुमनसेव्याय नमः ॐ सुमनःशेखराय नमः ॐ सुमीनाक्षी भक्ताम्बुजतरुणसूर्याय नमः ॐ सुमुखराघाय नमः ॐ सुमुखाय नमः ॐ सुमृहीकाय नमः ॐ सुमूर्तये नमः ॐ सोमार्धधारिणे नमः ॐ सोमधराय नमः ॐ सोमाधाराय नमः ॐ सीमपाधाय नमः ॐ सोम नमः ॐ सोम नमः ॐ सोमनाथाय नमः ॐ सोम नमः ॐ सोमममयाय नमः ॐ सोम अग्निलोचनाय नमः ॐ सोम नमः ॐ सोम नमः ॐ सोमपाय नमः ॐ सोमभूषणाय नमः ॐ सोम पावकमार्थाण्डलोचनाय नमः ॐ सोमास्कन्धाय नमः ॐ सोमवग्निचक्षुषे नमः ॐ सोमकलाधराय नमः ॐ सोमवारीनभूदृतासनरथोमपानिलखाकृतये नमः ॐ सोममण्डलगाय नमः ॐ सोमाय नमः ॐ सोमेशाय नमः ॐ सौम्यवक्त्राय नमः ॐ सौम्यदंष्ट्राविभूक्षिणे नमः ॐ सौम्यवक्त्राधराय नमः ॐ सौम्यरूपाय नमः ॐ सयज्ञारये नमः ॐ संयोगाय नमः ॐ संयुगापीढनवाहनाय नमः ॐ संयुताय नमः ॐ संयोगिने नमः ॐ संयमिने नमः ॐ संयमिध्येयाय नमः ॐ स्वयं भूताय नमः ॐ स्वयमादिविवर्जिताय नमः ॐ स्वयं प्रणतात्मने नमः ॐ स्वयं प्रभावाय नमः ॐ स्वयं भुवे नमः ॐ स्वयं ज्योतिषे नमः ॐ स्वयं प्रभवे नमः ॐ स्वयं भवागमममस्तकाय नमः ॐ स्वयम् म् नमः ॐ स्वयं पञ्चब्रह्मादिमूर्तये नमः ॐ स्वयं सर्वाधराय नमः ॐ स्वयं विश्वभासकाय नमः ॐ स्वयं प्रकाशाय नमः ॐ स्वयं ज्योतिस्वरूपिणे नमः ॐ स्वयं भूपूजिताय नमः ॐ स्वयं जाताय नमः ॐ स्वयं सिद्धाय नमः स्वयं प्रकाशचिरन्तनाय नमः ॐ स्वयं व्यक्ताय नमः ॐ स्वयं भुवे नमः ॐ सायं ताण्डवसम्भ्रमाय नमः ॐ सायकचक्रधारिणे नमः ॐ स्नायुरक्षकाय नमः ॐ स्नायूनां पतये नमः ॐ स्वायुधाय नमः ॐ सुयुक् य नमः ॐ सुयज्ञाय नमः ॐ सुयामुनाय नमः ॐ सुयसाश्रीमुखपधूसंगीतास्वादिने नमः ॐ स्तूयमानाय नमः ॐ सरसाय नमः ॐ सरसाम्बुनिदये नमः ॐ सरस नमः ॐ सरस्वत्याश्रयाय नमः ॐ सरसचित्रगतये नमः सरसगुणयुथाय नमः ॐ सरस मृदुभाषाय नमः सरससुफलदाय नमः ॐ सरसगुणैगणाय नमः ॐ सरसवदनाय नमः ॐ सरस्वत्याम्बुसेविताय नमः ॐ सरसिजविपक्षसूढाय नमः ॐ सरसिजकुवलय जागरसंवेशनजागरूकलोचनाय नमः ॐ सरसीरुगसञ्जातप्राप्तसारदये नमः ॐ सरसीरुगभत्राय ददशे नमः ॐ सरस्याय नमः ॐ सरिजटालाय नमः सर्गस्थितविनाशानां कर्तृप्रेरकाय नमः ॐ सर्गाणां पतये नमः ॐ सर्वसाक्षिणे नमः ॐ सर्वप्रधाय नमः ॐ सर्वतकृतासनाय नमः ॐ सर्वत्र पाणिपादाय नमः ॐ सर्वतोमुकाय नमः ॐ सर्वमङ्गलाकाराय नमः ॐ सर्वस्य जगतः पात्रे नमः सर्वलोकानाम् नेत्रे नमः ॐ सर्ववेदान्तपारगाय नमः ॐ सर्वशास्त्रार्थसम्पन्नाय नमः ॐ सर्वसौभाग्यनिलयाय नमः ॐ सर्वकारणाय नमः ॐ सर्वकृते नमः ॐ सर्वकृते नमः ॐ सर्वलोकेशाय नमः ॐ सर्वसृष्ट्यार्थाय नमः ॐ सर्व सर्वाभीष्टफलप्रदाय नमः ॐ सर्वलोकैकजीवातवे नमोहा ॐ सर्वज्ञाय नमः ॐ सर्वभावकराय नमः ॐ सर्वशुभङ्कराय नमः ॐ सर्वशस्त्रभृधांवराय नमः ॐ सर्वप्रपञ्चसृष्ट्यादिपञ्चकृत्य नमः ॐ सर्वदिव्यैरलं नमः ॐ सर्वलोकविभूषणाय नमः ॐ सर्वधर्मज्ञाय नमः ॐ सर्वभूतप्रियाय नमः सर्वभूतपतये नमः ॐ सर्वसुरश्रेष्ठाय नमः ॐ सर्वसुराधिपाय नमः ॐ सर्वपापक्षयाय नमः ॐ सर्ववेदमन्त्रजनकपञ्चवधनाय नमः ॐ सर्वज्ञशक्तिहृदयाय नमः ॐ सर्वतपाणिपादाय नमः ॐ सर्वरोगविनाशनाय नमः ॐ सर्वकल्मषनाशिने नमः ॐ सर्वसम्बदान् नमः धाम् प्रभवे नमः ॐ सर्वदेवस्तुताय नमः ॐ सर्वभूतात्मभूताय नमः ॐ सर्वसंहारणाय नमः ॐ सर्ववेदार्थविदूषान् स्वायम्भवाय नमः ॐ सर्वरक्षसान् निरुतये नमः ॐ सर्वलोकैकसंहर्त्रे नमः ॐ सर्वलोकैकनिर्मात्रे नमः ॐ सर्वजनसद्गुरवे नमः ॐ सर्वजनसद्गुरवे नमः ॐ सर्वगाय नमः ॐ सर्वगुणाकराय नमः ॐ सर्वशास्त्रे नमः ॐ सर्वदेवानां पालकाय नमः ॐ सर्वमूर्धामादिकर्त्रे नमः ॐ सर्वशक्तिधराय नमः ॐ सर्वकृत्सन्निविष्टाय नमः ॐ सर्वपापहराय नमः ॐ सर्वभोकास्मृधा स्मृद्धाय नमः ॐ सर्वज्ञमूर्तये नमः ॐ सर्वसाघाधिपतये नमः ॐ सर्वं शक्रस्यनाय नमः ॐ सर्वनिहन्त्रे नमः ॐ सर्वगुह्यपिशाचानाम् पतये नमः ॐ सर्वगुणोपपन्नाय नमः ॐ सर्वस्वरूपिणे नमः ॐ सर्वलोकानाम् प्रभवे नमः ॐ सर्वसच्चित्सुकात्मकाय नमः ॐ सर्वकल्याणकारणाय नमः ॐ सर्वजगतां कारणाय नमः ॐ सर्वसौभाग्यसिद्धिदाय नमः ॐ सर्वमङ्गलहेतवे नमः ॐ सर्वभूतानामाताराय नमः ॐ सर्वभूतानामनुग्रहपरायणाय नमः ॐ सर्वजगदामधिपाय नमः ॐ सर्वहृदयैकनिवासाय नमः ॐ सर्वदेवादिदेवाय नमः ॐ सर्वमन्त्राधिष्ठिताय नमः सोम् सर्वमन्त्रस्वरूपाय नमः ॐ सर्वशक्तिधाम्ने नमः ॐ सर्वस्मै नमः ॐ सर्वसत्त्वावलम्बनाय नमः ॐ सर्वधामफलप्रदाय नमः ॐ सर्वविदे नमः ॐ सर्वरोगाग्नाय नमः ॐ सर्वगोप्त्रे नमः ॐ सर्वशास्त्ररहस्यविधे नमः ॐ सर्वशक्तिप्रपूजिताय नमः ॐ सर्वजिते नमः ॐ सर्वधर्म समन्विताय नमः ॐ सर्वज्ञाननिधये नमः ॐ सर्वलोकैकभूषणाय नमः ॐ सर्वसुगन्धिसुलेपितलिङ्गाय नमः ॐ सर्वसमुद्भवकारणलिङ्गाय नमः ॐ सर्वसम्भवे नमः ॐ सर्वदेवतपोमयाय नमः ॐ सर्वसाधनाय नमः ॐ सर्वलोकप्रजापतये नमः ॐ सर्वपापहराय नमः ॐ सर्वभन्धविमोचनाय नमः ॐ सर्वशासनाय नमः सर्वास्त्रप्रपञ्चनाय नमः ॐ सर्वदेवोत्तमोत्तमाय नमः ॐ सर्वभूतमहेश्वराय नमः ॐ सर्वं सहाय नमः ॐ सर्वाहनाय नमः ॐ सर्ववेदात्मने नमः ॐ सर्वं सहोच्छ्रायश्यं धन श्रीमते नमः ॐ सर्वशास्त्रस्वरूपिणे नमः ॐ सर्वशङ्गविवर्जिताय नमः ॐ सर्वभूतकृदिस्थाय नमः ॐ सर्वतीर्थमयाय नमः सर्वलक्षणसम्पन्नाय नमः ॐ सर्वशक्तिसमायुक्ताय नमः ॐ सर्वकारणाय नमः ॐ सर्वदेवसमाराध्याय नमः ॐ सर्वभयज्ञाय नमः ॐ सर्वमङ्गलदायकाय नमः ॐ सर्वभक्षकाय नमः ॐ सर्वलोकेशाय नमः ॐ सर्वजीवदयापराय नमः ॐ सर्वदेव य नमः ॐ सर्ववागीश्वरेश्वराय नमः ॐ सर्वपूरकाय नमः ॐ सर्वरोगप्रशमनाय नमः ॐ सर्वरोगविवर्जिताय नमः ॐ सर्पप्रकृष्टाय नमः ॐ सर्वज्वरभयापनयनाय नमः ॐ सर्वदर्शनाय नमः ॐ सर्वदश्चराय नमः ॐ सर्पप्रवर्तनाय नमः सर्वदश्चक्षुषे नमः ॐ सर्वव्यापिने नमः भूतधमनाय नमः ॐ सर्वविद्यादिदैवताय नमः ॐ सर्वविद्याविशारदाय नमः ॐ सर्वविद्याप्रदायिने नमः ॐ जैने नमः ॐ सर्वरूपधृते नमः ॐ सर्वलक्षणलक्षणाय नमः ॐ सर्वशक्तये नमः ॐ सर्वसंश्लिष्टाय नमः ॐ सर्वतःसमाय नमः ॐ सर्वगोचराय नमः ॐ सर्वशूप्रदृशे नमः ॐ सर्वदाम्ने नमः ॐ सर्वनियोजकाय नमः ॐ सर्वमोहनाय नमः ॐ सर्वदेवप्रियाय नमः ॐ सर्वदेवमयाय नमः ॐ सर्वश्रेयसे नमः ॐ सर्वहिताय नमः ॐ सर्वकर्मफलप्रताय नमः ॐ सर्वकर्मविवर्जिताय नमः ॐ सर्वविज्ञान्तकाय नमः ॐ सर्वगर्वजिते नमः ॐ सर्वमन्त्रफलप्रदाय नमः ॐ सर्वदुग्गग्ने नमः ॐ सर्वदुक् विमोचनाय नमः ॐ सर्वदुःखाधिगाय नमः ॐ सर्वज्ञशक्तये नमः ॐ सर्वज्ञानप्रबोधिने नमः ॐ सर्वतीर्थस्थिताय नमः ॐ सर्वपर्वतवासिने नमः ॐ सर्वशस्त्रस्वरूपिणे नमः ॐ सर्वभूतप्रपञ्चनाय नमः ॐ सर्ववर्णाय नमः ॐ सर्वमायाप्रभञ्चनाय नमः ॐ सर्वसम्पत्तिजनकाय नमः ॐ सर्वभद्रे नमः ॐ सर्वतन्त्रप्रसूतये नमः सर्वव्याधिचिकित्सकाय नमः सर्वज्ञानसम्पन्नाय नमः ॐ सर्वपापप्रपञ्चकाय नमः ॐ सर्वपावनाय नमः ॐ सर्वधारित्र्यसमनाय नमः ॐ सर्वतोभद्रवासिने नमः ॐ सर्वशास्त्रार्थवादिने नमः ॐ सर्वशास्त्रार्थप्रदर्शकाय नमः ॐ सर्वसत्यदर्शिने नमः ॐ सर्वदर्शिणे नमः ॐ सर्व प्रत्ययसाधकाय नमः ॐ सर्वप्रमाणसम्पत्तये नमः ॐ सर्वमङ्गलाय नमः ॐ सर्वमङ्गलमाङ्गल्याय नमः ॐ सर्वमङ्गलसम्पन्नाय नमः ॐ सर्वमाङ्गल्यदायिने नमः ॐ सर्वसांकर्यदोषग्ने नमः ॐ सर्वयोगप्रधायिने नमः ॐ सर्वचैतन्यरूपिणे नमः ॐ सर्वहृत्सन्निविष्टाय नमः ॐ सर्वसिद्ध प्रदाय नमः ॐ सर्वयज्ञफलप्रदाय नमः ॐ सर्वभक्तसमुत्सुकाय नमः ॐ सर्वकामप्रपूरकाय नमः ॐ सर्वभूताशाय स्थिताय नमः ॐ सर्वभूतदमनाय नमः ॐ सर्वभूतनिवासाय नमः ॐ सर्वलोकानामन्तकाय नमः ॐ सर्वलोकमहेश्वराय नमः ॐ सर्वलोकसुकावहाय नमः ॐ सर्वलोकशुभङ्कराय नमः ॐ सर्वलोकेश्वराय नमः ॐ सर्वासा परिपूरकाय नमः ॐ सर्वदिग्वासे नमः ॐ सर्वशक्तिमते नमः ॐ सर्वदेहिनां शरण्याय नमः ॐ सर्वदेवात्मकाय नमः ॐ सर्ववस्यकराय नमः ॐ सर्ववेधमूर्तये नमः ॐ सर्ववेदार्थसम्पत्तये नमः ॐ सर्ववेदान्तनिलयाय नमः ॐ सर्वग्रहरूपिणे नमः ॐ सर्वकारणकारणाय नमः ॐ सर्वभूषकभेषजाय नमः ॐ सर्वयोकविनिष्ठुताय नमः ॐ सर्वसम्मताय नमः ॐ सर्वपोषकाय नमः ॐ सर्वविभवकालिने नमः ॐ सर्वात्मकाय नमः ॐ सर्वाभरणसंयुक्ताय नमः ॐ सर्वाधाराय नमः ॐ सर्वादये सर्वालङ्कारसंयुक्ताय नमः ॐ सर्वात्मलिङ्गाय नमः ॐ सर्वात्मभुवे नमः ॐ सर्वातिशयाय नमः ॐ सर्वास्तिहराय नमः ॐ सर्वान्तर्यामिणे नमः ॐ सर्वात्मज्योतिषे नमः ॐ सर्वापन्मोचकद्वेष्टसर्वापस्याय नमः ॐ सर्वात्मान्तवर्तिने नमः सर्वाभीष्टफलप्रदाय नमः ॐ सर्वान्ताय नमः ॐ सर्वातिशयाय नमः ॐ सर्वाचाराय नमः ॐ सर्वायुधराय नमः ॐ सर्वाध्यक्षाय नमः ॐ सर्वाश्रयाय नमः ॐ सर्वाङ्गाय नमः ॐ सर्वायुधविशारदाय नमः ॐ सर्वासाय नमः ॐ सर्वाशयाय नमः सर्वां गरूपाय नमः ॐ सर्वां गसुन्दराय नमः ॐ सर्वावयवप्ताय नमः ॐ सर्वाभरणभूषिताय नमः ॐ सर्वार्थसाधनपायाय नमः ॐ सर्वाधनाशनाय नमः ॐ सर्वश्रौम्याय नमः ॐ सर्वात्मगोचराय नमः ॐ सर्वामरमुनीश्वराय नमः सर्वानवध्याय नमः ॐ सर्वसुनिलयाय नमः ॐ सर्वालङ्कारसंयुताय नमः ॐ सर्वावयवसम्पूर्णाय नमः ॐ सर्वार्थसाधकाय नमः ॐ सर्वेश्वरेश्वराय नमः ॐ सर्वेन्द्रियगोचराय नमः ॐ सर्वोप्सितप्रधाय नमः ॐ सर्वेषां सर्वधाय नमः ॐ सर्वे श्वराय नमः ॐ सर्वे परिचराय नमः ॐ सर्वोत्तमाय नमः ॐ सर्वैश्वर्यसमन्विताय नमः सर्वेष्ठाय नमः ॐ सर्वेषां प्राणिनां पतये नमः ॐ सर्वैश्वर्यसम्पन्नाय नमः ॐ सर्वेङ्गितज्ञाय नमः ॐ सर्वोरगेश्वराय नमः ॐ सर्वोपाधिविनिर्मुक्ताय नमः ॐ सर्वोपास्याय नमः ॐ सर्वो भद्रवनाशनाय नमः ॐ सर्वोपनिषदास्थिताय नमः ॐ सर्वोतुङ्गाय नमः ॐ स्वर्णरत्नां गतलसतपञ्चत् वयभुजान्विताय नमः ॐ स्वर्णवर्णशेषपासाशोभिधाङ्गमण्डलाय नमः ॐ स्वर्णकेशाय नमः ॐ सर्पभूषाय नमः ॐ सर्पहाराय नमः ॐ सर्पयज्ञोपवीतिने नमः ॐ सर्पग्रैवेयकाङ्गदाय नमः सर्पराजोत्तरीयाय नमः ॐ सर्परोतकलाभसुतृकलव्याकीर्णपञ्चोरगाय नमः ॐ सर्पादिराजौषतिनाथ युक् ञ्जडामण्डलग्वराय नमः ॐ स्वर्गमार्गनिरर्गलाय नमः ॐ स्वर्गाभवर्गदात्रे नमः ॐ स्वर्धून्योर्ध्वजले ग्लिन्तजडामण्डलमण्डिताय नमः ॐ स्वर्धूनी चन्द्रसकलविराजितकिरीटकाय नमः ॐ सरोजकिञ्जल्कसमानवर्णाय नमः ॐ स्मरारातये नमः ॐ स्मरप्राणदीपकाय नमः स्मरान्तकाय नमः ॐ स्मरहराय नमः ॐ स्मरशासनाय नमः ॐ स्मरमदविनाशनाय नमः ॐ सारससम्भवसन्नुताय नमः ॐ सारङ्गद्विजसन्तापसमनाय नमः ॐ सा गक्तित्वाय नमः ॐ सारविशारदाय नमः ॐ सारसाक्षसमजृम्भशायकाय नमः ॐ सारभूताय नमः ग्राहिणे नमः ॐ सार्वकालिकसंसिद्धये नमः ॐ स्थिराय नमः ॐ स्थिरधन्वने नमः ॐ स्थिरभक्तियोजसुलभाय नमः ॐ स्थिरविज्ञानाय नमः ॐ स्थिरप्रज्ञाय नमः ॐ स्थिरयोगाय नमः ॐ स्थिरमार्गाय नमः ॐ स्थिरासनाय नमः स्थिरागमाय नमः ॐ सुरविद्वांस्प्रलादाय नमः ॐ सुरगुरुसुरवरपूजितलिङ्गाय नमः ॐ सुरवनपुष्पसमर्चितलिङ्गाय नमः ॐ सुरवन्द्यपादाय नमः ॐ सुरसिद्धनिवासाय नमः ॐ सुरगुरुप्रियाय नमः ॐ सुरमेधवाय नमः ॐ सुरभ्युद्धरणाय नमः ॐ सुरसदृग्ने नमः ॐ सुरभये नमः ॐ सुरकार्यहिताय नमः ॐ सुरवल्लभाय नमः ॐ सुरनिभागधराय नमः ॐ सुरवरमुनिसेविताय नमः ॐ सुरम्यरूपाय नमः ॐ सुरमुनिसन्नुताय नमः ॐ सुरगणैर्क्षेयाय नमः ॐ सुरगणार्चितपादाय नमः ॐ सुरपतिस्तुताय नमः ॐ सुरमुनिगणसुप्रसादकाय नमः ॐ सुरमुनिष्वान्ताम्बुजादाश्रयाय नमः ॐ सुरारिग्ने नमः ॐ सुराग्रकण्यदेवाय नमः ॐ सुरासुरादितपादपद्माय नमः ॐ सुरासुरनमस्कृताय नमः ॐ सुराधिपाय नमः ॐ सुरारिसंहर्त्रे नमः ॐ सुराङ्गनानृत्यपराय नमः ॐ सुरुचिररुचिजालाय नमः ॐ सुरोसूरुकिरीटरामरत्नावृताष्टपदविष्टराय नमः ॐ सुरेशाद्यवन्दिताय नमः ॐ सुरेशानाय नमः ॐ सुरोत्तमाय नमः ॐ सुरोत्तमोत्तम य नमः ॐ सूर्यकोटिविभासुराय नमः ॐ सूर्यमण्डलमध्यस्थाय नमः ॐ सूर्याणाम् पतये नमः ॐ सूर्यचन्द्राग्निग्रहनक्षत्ररूपिणे नमः ॐ सूर्यजनगेयाय नमः सूरिपोषकाय नमः ॐ सूरिगानप्रियाय नमः ॐ सूर्यकोटिसमप्रभाय नमः ॐ सूर्याग्निनयनाय नमः ॐ सूर्यचन्द्राग्निपीठस्थाय नमः ॐ सूर्याग्निसोमवर्णाय नमः ॐ सूर्याय नमः ॐ सुर्थापनाय नमः ॐ स्फुरन्मकरकुण्डलाय नमः ॐ स्मेराननाय नमः ॐ स्मेरां चिताननां भोजकरुणा भूरितेक्षणाय नमः ॐ सौराष्ट्रसोमनाथाय नमः ॐ सौराणां भास्कराकाराय नमः ॐ सौराष्ट्रज्योतिर्मयाय नमः ॐ संसारसातये नमः ॐ संसारस्थाय नमः ॐ संसारसमुद्रसेतवे नमः ॐ संसारार्णवमग्नानां समुद्धरण हेतवे नमः ॐ संसारमोषकाय नमः ॐ सस्मितमुखाय नमः ॐ स्वास्तिदाय नमः ॐ स्वस्तिभुजे नमः ॐ स्वस्थाय नमः ॐ स्वसेवा समायातदेवासुरेन्द्रनमन्मौलिमन्दार मालाभिषिताय नमः ॐ स्वस्पिञ्जराय नमः ॐ सुसंकल्पाय नमः ॐ स्वस्वरूपाय नमः ॐ स्वसंवेद्याय नमः ॐ संसारतारकाय नमः ॐ संसारभयनाशकाय नमः ॐ संसारवैद्याय नमः ॐ संसेवितभृगुतुङ्गाय नमः ॐ सुसहाय नमः ॐ सुशरस्याय नमः ॐ सुस्थिराय नमः गग्नाय नमः ॐ सुमुस्वप्नफलदायकाय नमः ॐ सुसंक्षेपाय नमः ॐ सुस्नाधविपाटकाय नमः ॐ सुस्मिताननाय नमः ॐ सहस्राक्षाय नमः ॐ सहस्रभद्रनिलयाय नमः ॐ सहस्रपदे नमः ॐ सहस्रफणिभूषणाय नमः ॐ सहस्रनामसंस्तुत्याय नमः ॐ सहस्रभाघवे नमः ॐ सहस्रयुगधारिणे नमः ॐ सहस्रपादचाराय नमः ॐ सहस्रमूर्घ्ने नमः ॐ सहस्रमूर्तये नमः ॐ सहस्राक्षफलावहाय नमः ॐ सहस्रलोचनप्रभृत्यशेषलेखशेखर प्रसूनधूलिधोरणिविधूसरां गृहपीठभुवे नमः ॐ सहस्रागमकटितटाय नमः ॐ सहस्रभानुसम्कासचक्रधाय नमः ॐ सहस्रकोटितपनसङ्कासाय नमः ॐ सहस्रारमहामन्दिराय नमः ॐ सहस्रलिङ्गाय नमः ॐ सहस्रधलमध्यस्थाय नमः ॐ सहस्रप्रणवाय नमः ॐ सहस्र नयनादिवन्दिताय नमः ॐ सहस्रार्कच्छठाभास्वद्भीमानान्त स्थिताय नमः ॐ सहमानाय नमः ॐ स नमः ॐ स गजानन्दसन्दोगसंयुक्ताय नमः ॐ सहिष्णवे नमः ॐ संहर्त्रे नमः ॐ संहारकर्त्रे नमः ॐ संहारमूर्तये नमः ॐ सख्यगोतावरीतीरवासाय नमः ॐ स्वाहाकाराय नमः ॐ स्वाहाशक्तये नमः ॐ सिंहस्कन्धाय नमः ॐ सिंह सिंहसार्धूलरूपाय नमः ॐ सिंहदंष्ट्राय नमः ॐ सिंहवाहनाय नमः ॐ सिंह संहननाय नमः ॐ सीकृते नमः ॐ सुहोत्राय नमः ॐ सुहृतप्रियाय नमः ॐ साक्षिणे नमः क्षात् कैवल्यरूपिणे नमः ॐ संक्षेत्रे नमः ॐ साक्षात् मङ्गलदैवताय नमः ॐ साक्षात् कैवल्यदायकाय नमः ॐ सूक्ष्मधनवे नमः ॐ सूक्ष्मात् सूक्ष्मपरागतये नमः ॐ सूक्ष्मात्मने नमः ॐ सूक्ष्मगोचराय नमः ॐ सूक्ष्मप्रमाणभूताय नमः ॐ सूक्ष्मार्थविधे नमः ॐ सूक्ष्मकार्यार्थदर्शिते नमः ॐ सूक्ष्मागमगुख्यकाय नमः ॐ हकारस्य <pyatled privilegedorni -yoghanam> <Mechanism> हंसो देवता आयुरारोग्यसिद्धे विनियोग नमः ॐ ह्रीं कृताय नमः ॐ ह्रींकारारामसारिकाय नमः ॐ फींकारसौधराजाय नमः ॐ फ्रींकारधुनीहंसाय नमः ॐ क्रींकारजपसन्तुष्टाय नमः ॐ हन्त्रे नमः ॐ हतपापवृन्दाय नमः ॐ हृत्पुण्टरीकशयनाय नमः ॐ हृत्पुण्टरीकसंस्थाय नमः हों हृत्पुण्टरीकान्तरसन्निविष्टाय नमः ॐतरागाय नमः हों हृत्पङ्कजसमासीनाय नमः ॐ हृत्पद्ममध्यनिलयाय नमः ॐ हृत्पद्मकर्णिकासायिने नमः हों हृत्कमल हस्ताय नमः ॐ हृत्मतये नमः ॐ हित्मतये नमः ॐ हितकारिणे नमः ॐ हिताहितसमाय नमः ॐ हितौषिणे नमः ॐ हितकृत्सौम्याय नमः ॐ हुतप्रियाय नमः ॐ हुतासनाय नमः ॐ हुतासनहायाय नमः ॐ हुतभुग्ज्वालाकोटिभानुसमप्रभाय नमः ॐ हेदिभिसमलंकृताय नमः ॐ हेतुभूताय नमः ॐ हेदुध्रुते Oh, hey, okay. yeah, yeah, ma'am. ॐ कृतिसन्निविष्टाय नमः ॐ ह्लातनाय नमः ॐ हिनाय नमः ॐ ह्रीं बीजपचिञ्चिताय नमः ॐ हिमवद्गिरिसंश्रयाय नमः ॐ हिमग्ने नमः ॐ हिमनायकाय नमः ॐ हिमाङ्गाय नमः ॐ हिमालये केधाराय नमः ॐ हिमाचलेन्दनया वल्लभाय नमः ॐ हिमाचन्दन कुन्देन्दुकुमुदाम् भोजसन्निभाय नमः ॐ हिमातृजाताकुचकुङ्कुमाङ्कभक्षस्थलालोकशिवाक्षमालाय नमः ॐ हिमाचलधृतश्रियाय नमः ॐ हृमते नमः ॐ हेमाङ्गाय नमः ॐ हेमरूपाय नमः ॐ हेमांशुकाय नमः ॐ हेमगर्भाय नमः ॐ हेमलिङ्गाय नमः ॐ हेमरेतसे नमः ॐ हेमातृचापाय नमः ॐ हैमवतीपतये नमः ॐ हैमशीराम्भराय नमः ॐ हयशीर्षाय नमः ॐ हरये नमः ॐ हराय नमः ॐ हर्यक्षाय नमः ॐ हर्येश्वाय नमः ॐ हरीश्वराय नमः ॐ हर्त्रे नमः ॐ हरिकेशाय नमः ॐ हरिहराय नमः ॐ हर्षप्रदाय नमः ॐ हरयोगिने नमः ॐ हरिवाहाय नमः ॐ हरिध्वजाय नमः ॐ हरिमार्गरथाय नमः ॐ हरिद्वर्णाय नमः ॐ हरात्मकाय नमः ॐ हरिमानसतोक्ष्णाय नमः ॐ हरिताय नमः ॐ हरिनायकाय नमः ॐ हरिविरिञ्चितरदि पूजिताय नमः ॐ हरिकराधानभूधानत्वाष्टाय नमः ॐ हरिकेशिने नमः हों हरिनेत्राय नमः हों हरिनयन पद्मार्चितपदाय नमः ॐ हरिकेशेभ्यो नमः हों हरिनन्तिसहस्ताब्जालाम्भनाय नमः ॐ हरिसुलोचनाय नमः रेखायापहारिणे नमः ॐ हर्यक्षवाहनाय नमः ॐ हरिद्म्बराय नमः ॐ हरिश्चन्द्राय नमः ॐ हरिप्रियाय नमः ॐ हरिनाक्षाय नमः ॐ हरिक्षौमाय नमः ॐ हर्यनिन्द्रात्मने नमः ॐ हरिणे नमः ॐ हारायितः फणिराज फणामनविराजिताय नमः ॐ हारिदवरदाय नमः ॐ हरकर्पूरगौरशरीराय नमः ॐहारकुण्टलकेयुरादिभूषिताय नमः ॐ हारिकृतभुजङ्गराजाय नमः ॐ हिरण्यरेतसे नमः ॐ हिरण्यकवचोद्भवाय नमः ॐ हिरण्यभागवे नमः ॐ हिरण्याय नमः ॐ गिरण्योद्भवकारणाय नमः ॐ हिरण्यकवचाय नमः ॐ हिरण्यदाय नमः ॐ हिरण्यश्मश्रवे नमः ॐ हिरण्यगर्भपुत्राणाम् प्राणसंरक्षणाय नमः ॐ हिरण्यकिङ्किणीयुक्तकङ्कणाय नमः ॐ हिरण्यगर्भोदमाम् गच्छेधकाय नमः ॐ हिरण्यज्योतिविभ्रान्तिसुप्रभाय नमः ॐ हिरण्यपतये नमः ॐ हिरण्यवाससे नमः ॐ हिरण्यरूपाय नमः ॐ हिरण्यनाभाय नमः ॐ हिरण्यवर्णाय नमः ॐ हिरण्यवीराय नमः ॐ हिरण्यदायिने नमः ॐ हिरण्यमालिने नमः ॐ हिरण्यसुरेतसे नमः ॐ हिरण्यकुण्डलाय नमः ॐ हिरण्यमयाय नमः ॐ हिरण्यपुरान्दस्थाय नमः ॐ हिरण्यदन्ताय नमः ॐ हिरण्यसद्रुवे नमः ॐ हिरण्यसदृशप्रभाय नमः ॐ हेरण्डताताय नमः ॐ हल्लकांसत्किरीटाय नमः ॐ हालायुधाय नमः ॐ हालास्य मध्यनिलयाय नमः ॐ हालास्यनायकाय नमः ॐ हालास्य नाताय नमः ॐ हालाहलालं कृतकन्धराय नमः ॐ हालासज्ञेयाय नमः लास्यागतदेवदैत्यसङ्गतापधानाय नमः ॐ हालास्यप्रियाय नमः ॐ हालाहलविशापहाय नमः ॐ हालाहलग्रासकराळखकण्डाय नमः ॐ हृल्लेखमन्त्रमध्यकाय नमः ॐ हविषे नमः ॐ हव्यवाहनाय नमः ॐ हव्यवाहाय नमः ॐ हव्यवाहनाय नमः ॐ हविष्यभुजे नमः ॐ हवनाय नमः ॐ हविष्यशिने नमः र्हराय नमः ॐ हविष्मते नमः ॐ हव्यकव्याय नमः ॐ हव्यकव्यभुजे नमः हों हविर्धानाय नमः ॐ हविप्रियाय नमः ॐ हं वामदेवकटीतटाय नमः ॐ हंसाय नमः ॐ हंसवाहनाय नमः ॐ हंसवाहनसंस्तुताय नमः ॐ हंसगतये नमः ॐ हंसारास्याय नमः ॐ हंसाब्जसम्भवसुधूरसुमस्तकाय नमः ॐ हंसनादाय नमः ॐ हंसमण्डलमध्यस्थाय नमः ॐ हंसमण्डलवासाय नमः ॐ हंसनेत्राय नमः ॐ हंसचक्ररतस्थाय नमः ॐ हंसचक्रनिवासाय नमः ॐ हस्ते भक्निधराय नमः हों हस्ताय नमः ॐ हस्तराजत्पुण्डरीकाय नमः हों ह्रस्वाय नमः ॐ हासमुगाब्जाय नमः ॐ हिंस्रश्रमसानिकोन्मोकनर्तनाय नमः ॐ सहहये नमः हा हाशब्दपरायणाय नमः ॐ चकारस्य नृसिंहो देवताशत्रुजयार्थविनियोग नमः ॐ शांकारबीजनिलयाय नमः ॐ शौङ्कारबीजनिलयाय नमः ॐ क्षाणिगानां क्षणाकाराय नमः ॐ क्षणाय नमः ॐ क्षणानाम् पतये नमः ॐ क्षोणीपतिप्रीतिकराय नमः ॐ क्षत्रुभ्यो नमः ॐ क्षितिक्षमाय नमः ॐ क्षान्ताय नमः ॐ क्षान्तिकराय नमः ॐ शान्तिनिलयाय नमः ॐ शान्त्यास्पदाय नमः ॐ क्षितौ पञ्चगुणप्रदाय नमः क्षितिपतिपतये नमः ॐ क्षितीसाय नमः ॐ क्षितिरूपाय नमः ॐ क्षेत्राय नमः ॐ क्षेत्रपतये नमः ॐ क्षेमकृते नमः ॐ क्षेत्रे नमः ॐ क्षेत्रज्ञाय नमः ॐ क्षेत्रक्षेत्रज्ञाय नमः ॐ क्षेत्रपालकाय नमः ॐ क्षेत्राणां पतये नमः ॐ क्षेत्राधिपतये नमः ॐ क्षेत्राणामविमुक्तक नमः क्षुद्रग्ने नमःन् ॐ क्षुधाभराय नमः ॐ क्षुन्निवारकाय नमः ॐ क्षपणाय नमहान् ॐ क्षपणदक्षाय नमहान् ॐ क्षपालाय नमः ॐ क्षपितपूर्वदैत्याय नमः ॐ क्षिप्रेशवे नमः ॐ क्षिप्रदग्धपुरत्रदयाय नमः ॐ क्षिप्रक्षेमंकराय नमः ॐ क्षिप्रसन्नाय नमः ॐ क्षिप्रसादनाय नमः वं श्रूंबीजाय नमः ॐ क्षमावृते नमः वंशोभ्याय नमः वंशोभरहिताय नमः वंशोपनाशकाय नमः ॐ शोभवर्जिताय नमः ॐशोभहारिणे नमः ॐ क्षमाय नमः ॐ क्षमापरपरायणाय नमः क्षमिणाम्बराय नमः ॐ क्षमाधनाय नमः ॐ क्षमाधाराय नमः ॐ क्षमालवे नमः ॐ क्षमावतये नमः ॐ क्षमाभर्द्रे नमः ॐ क्षमावते नमः क्षमाप्रियाय नमः ॐ क्षेमेश्वराय नमः ॐ क्ष्यामाय नमः ॐ क्ष्यामहराय नमः ॐ क्षामवते नमः ॐ क्षामोदराय नमः ॐ क्षामगात्रे नमः ॐ क्षामकराय नमः क्षेमंकराय नमः ॐ श्रीशाम्बसदाशिवाय नमः